मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं फोर्टि सवेन् ब्रह्म यज्ञवेदनिर्णयम् श्रीगणेशाय नमः श्रीशुक उवाच तत्र नानाकथां चक्रोर्नानामतविकासिनीं स्वस्वबुद्ध्याविशेषेण मोख्याः प्रह्लाद आदराद केजिदाहुर्विधाधारं विष्णुं शक्तिं शिवं रविं ब्रह्मरूपं गणेशानां नानामदपरायणाः केजिदन्नं च प्राणं च मनोविज्ञानकं तथा आनन्दं सोहमेकं वै चैतन्यं बिन्दुकं परे बोद्धमात्मानमेके जसाङ्ख्यं कर्म तथा परे सममव्यरूपं ते आहुर्ब्रह्म तथा परं स्वसंवेद्यं तथा केचिन्निवृत्तिं शान्तिरूपकं योगमध्यात्मरूपं त आहुर्वेदपरायणाः असत्यं सत्यमेकेच च पूर्णानन्दं तथा सुरसहजं च परं बभूविरे निश्चयस्तत्र दैत्येश्च न बभूव मदैषिणां स्वस्वज्ञानसमयुक्ता वादं चक्रुरपण्डिताः तदोवादस्य शान्त्यर्थमवोचद्विष्णुरव्ययः सर्वान्समागतांस्तत्र सर्वज्ञः शङ्करेरितः श्रीविष्णुरुवाच वेदा गुरुस्वरूपाश्च सर्वेषां नात्र संशयः तैर्यत् सम्पादितं देवमुनयः सर्व आगताः सम्पाद्यतां विशेषेण ब्रह्मणो निश्चयार्थिनः सुखं तदेव सर्वेषां सर्वमान्यं भविष्यति वेदैस्वानुभवं गीतं यथा तद्यं मुनीश्वराः अदो वेदैश्च सर्वेषां ज्ञानम् संज्ञायते परं योगादिभिर्जन के जिन्मुनयो देव राक्षसाः साक्षाद्रूपं च तद्ब्रह्म कुर्वदे नात्र संशयः तथापि वेदसम्मान्यं वचस्तेषां न विद्यते वेदानां न समो विप्रा योगज्ञकृतदृश्यते सम्पूर्णयोगिनो वेद अदस्ते गुरवो मदाः महाभागा स्मरध्वं त्वां तदा तदो मुनिगण सर्वे योगिनो देवनायकाः साधु साधु समोचुस्तं विष्णुं बुद्धिमदाम् वरं तदशङ्करमुख्यैस्तैः संस्मृता कर्यसिद्ध्यै साङ्कात् समायुर्वेदा ओङ्कारेण समन्विताः तान् दृष्ट्वा सहसोद्धाय देवाः सर्षिगणाः परे प्रणम्य पूजयामासु कृताञ्जलिपुदाः पुरः आसनेषु समासीनाः सोङ्गारा वेदमुख्यकाः ऊचुस्तान् शिवमुख्यान् वै प्रहृष्टमनसो भवन् वेदा ऊचुः किमर्थं स्मरणं देवामुनयश्च कृतं जनाः अस्माकम्बदकार्यं तत् करिष्यामो न संशयः वेदानां वचनं श्रुत्वा शिवस्थानब्रवीद्वचः विनयेन विशेषज्ञो निश्चयार्थं हितैषिणा शिव उवाच ब्रह्मयज्ञः समारब्धोऽस्माभिः सर्वैर्हितेप्सुभिः तत्र वादसमयुक्ता न तदन्तं लभामहे अदो भवत्स्मृतिर्वेदा कृतास्माभिर्विशेषतः निश्चयं गुरवो यूयं वदध्वं भेदनाशकम् योगिनो न भवन्तिह कदापि च भवत्समाः भवध्वजप्रमाणेन योगज्ञावयमप्युद शिवस्य वचनं श्रुत्वा वेदास्तत्र जगुर्वचः देवान् मुनिन् जनान् सर्वान् दीनपा असुरेश्वर वेदा ऊजुः ब्रह्मयज्ञस्य पारं वै गमिष्यामः कथं वयम् अक्षरात्मकदेहत्वात् तथापि कथयामहे न वयं ब्रह्मरूपाश्च ब्रह्मज्ञाः किञ्चिदप्यहो योगमार्गबलेनैव वदिष्यामो यथा तथं प्रत्येकनिश्चयं देवाशृणुद ब्रह्मधारणम् येन संशयसंहीना गमिष्यथ परां गतिं ब्रह्ममानाविधं प्रोक्तं मया योगबलेन च प्रज्ञानादिमहावाक्यैस्तेषु योगो विशिष्यते सर्वब्रह्मसुयोगस्य स्थानं योगात्मकं भवेत् योगे ब्रह्माणि सर्वाणि तदाकाराणि वर्णितं न योगात् परमं ब्रह्म योगशान्त्या प्रलभ्यते ब्रह्मणस्पतिरेकोऽयं मया प्रोक्तो गणेश्वरः ब्रह्मणां सकलानां च पादृपालयितृत्वदः तं भजध्वं सुरश्रेष्ठ मुनयो भक्तिसंयुताः भवन्ति ब्रह्मभूता सर्वे जनास्तेन निश्चितम् एवमुक्त्वा बह्वृचस्तु तूष्णीं भावधरो भवद भावधर। तदो यजुस्वयं साक्षादवोचत्सर्वसंसदि ब्रह्मप्रदं च वचनं तत्र स्वानुभवात्मकं यजुरुवाच नानाविधम् मया ब्रह्मवर्णितं योगसेवया महावाक्यैश्च सर्वज्ञाक्रमार्थं नात्र संशयः तत्र योगस्वरूपाख्यमान्त्यम् ब्रह्मविशिष्यते सर्वब्रह्मसुयोगेन योगस्तेन प्रकथ्यते तदेव गणराजश्च भक्तैः सम्प्रार्थितः योगप्राप्त्यर्थमत्यन्तं तेन सा करको भवत् गणसमूहरूपाख्यसमूहं ब्रह्मरूपिणः तेषां स्वामीन सन्देहस्तम्भजध्वं विधानदः अन्नानां सकलानां च सदैकानेकरूपिणाम् समूहे ब्रह्म ज्ञातव्यमन्नात्मकमिति श्रुतिः नानाविधानि च ब्रह्माण्येवम्भो दैवतर्षयः ज्ञातव्यानि विचारेण गणरूपाणि निश्चितम् अदो गणेशभक्त्या वै सकलं सुलभं भवेत् ब्रह्म भूयप्रथः प्रोक्तो मया योगेन योगपह इत्युक्त्वा विररामाध यजुर्योगविदां वरं उवाचाध ततः सामब्रह्मनिर्णयकारणम् साम उवाच योगसेवनसामर्थ्यात्समर्थोऽहं च वर्णने किञ्चित् शृणुदेवेश ब्रह्मणो मुनयो वचः प्रोक्तानि नानाब्रह्माणि महावाक्यादिभिर्मया त्वात्रभेदार्थमत्यन्तं ज्ञातव्यं योगसेवया तत्र शान्तिप्रदं ब्रह्म योगाघ्यं नात्र संशयः भवति ब्रह्मणां योगो यत्र तेन जयोगकः नास्ति योगात् परं ब्रह्म शान्तिमार्गेण लभ्यते दे। तदेव मुनयो देवा, गणेशो नात्र संशयः मनोवाणीमयं देवा, मया यद्यत्प्रकीर्तितं गाक्षरसम्भुधं ज्ञातव्यं विबुधैः सदा मनोवाणीविहीनं यद्वर्ण्यदे विविधं तथा नकाराक्षरकं सर्वं निश्चितं योगसेवया तयोस्वामी गणेशानो योगाकारप्रकीर्तितः स्तम्भजध्वं विशेषेण ब्रह्मभूतपदप्रदं नानाभावेन युक्तास्तम्भजन्दे तत् ददादिशः यवमुक्त्वा महायोगी विररामस सामगः तदोद्धर्व महायोगी जगाद सकलांस्तदा ब्रह्मयज्ञस्य वेत्तासौ प्रह्लादशृणुतध्वचः अधर्वा उवाच आत्मासमिति वाक्याद्यैर्ब्रह्म नानाविधं मया सम्पादितं च योगेन तदेवोपाधिसंयुदं योगाख्यं परमं ब्रह्म तद्योगेन प्रलभ्यते संयोगा योगहीनोऽयं योगो ब्रह्म सुतिष्ठति शान्तिस्तत्र समाख्यादा योगे योगविदां वरः स एव गणनाधस्तु सर्वशान्तिप्रदोऽ भवत् एक एव गणेशानु जगदां ब्रह्मणां स्वयम् ईशसमूहरूपाणां योगरूपस्ततः स्मृतः सर्वेषामादिरूपोऽयं योगाकारः प्रभावतः मध्ये नानाविधस्वांशैर्जगत् सुब्रह्म सुप्रभुः अन्ते स्वयं तिष्ठेत्तेनादौ पूजितो भवद सर्वपूज्यश्च देवेशमुनयो निश्चयार्थिनः य आदि सोन्तरूपस्तु भवदे सर्वसम्मते मध्ये मायाविहारेण भेदा भेद युदो भवद अतस्तं योगरूपाख्यं भजध्वं योगसेवया भविष्यधब्रह्मभूता ब्रह्म यज्ञस्य पारगाः एवमुक्त्वा महायोगी विरराम महामते अथर्वा सर्वयोगज्ञस्तत्रोङ्कारो ब्रवीद्वचः ओङ्कार उवाच चतुर्वेदप्रजुरोहमया योगस्य देवास्तेन योगिमदो मयोपदेशिदा वेदा साधयामासुरन्वहं योगं ब्रह्मपदं ते न ब्रह्मज्ञाः सर्वसम्मदाः योगात् परं न विद्येद ब्रह्म सर्वत्र सम्मतं जगत् सुब्रह्म सुप्रोक्तं योगेन ब्रह्म तदेव गणराजो वै निश्चितो सदा संयोगायोगभावेन क्रीडदे योगरूपधृकसिद्धिर्भ्रान्तिमयी माया बुद्धिर्भ्रान्तिधरा मदा तयोस्वामी गणेशानो मायाभ्यां केलदे विभुः भुक्ते सिद्धिस्तदा मुक्ते सिद्धिर्ब्रह्मप्रदायिनी चित्तं पञ्चविधं बुद्धिस्तयोर्योगेन लभ्यते स्वसं वेद्यात्मकं ब्रह्मवेदेषु कथितं परं सर्वसंयोगरूपाख्यं तत्रायं दृश्यते स्वयं तेन स्वानन्दवासी च मायायुक्तप्रकीर्तितः अयोगे दर्शनं तस्य जायते न कदाचन निर्मायिकस्तद प्रोक्तस्तयोर्योगे न लभ्यते गकारश्चैव संयोगो नकारो योग उच्यते तेन नाम्ना समाख्यातो गणेशो वेदवादिभिः तं भजध्वं विशेषेण ब्रह्मीभूतस्य कारणात् ब्रह्मभूताद्विजा देव भविष्यधनसंशयः यवमुक्त्वा ततोङ्कारस्तूष्णीमासीन्महामते ॐ तत्सदिः श्रीमदान्ध्ये पुराणोपनिषदिश्रीमन्म उद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः ओ